श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे अष्टचत्वारिंशत् सर्गः सीताया विलापः जटया तस्या बोधनं श्रीरामलक्ष्मणयोर्जीवितावस्थाम्पत्यालङ्कायां निवर्तनं च भर्तारम् नियतं दृष्ट्वा लक्ष्मणं च महाबलं विललाप भृशं सीता करुणञ्चोकर्षिता ऊषु लाक्षयणिगा ये माम् पुत्रिण्या विधवेति च तेद्य सर्वे हते रामे ज्ञानिधो नृतवादिनः यज्वनो महर्षिम् ये माम् च सत्रिणः तेद्य सर्वे रामे ज्ञानिनो नृतवादिनः वीर पार्थिव पत्नीनां वेवि दुर्भस्व पूजिताम् तेज्य सर्वे हते रामे ज्ञानिनोऽ नृतवादिनः पोषोसं श्रवणे एमां द्विजाकाशान्तिकाशुभां त्यज्य सर्वे हते रामे ज्ञानिनोऽ नृतवादिनः इमानि खलु पन्नानि पादयोर्वै कुल आधिराज्येभिषिच्यन्ते नरेन्द्रे पतिभिः सह वैधव्यं यान्ति यैर्नायो लक्षणे भाग्यदुर्लभः भा, नात्मनस्तानि पश्यामि पश्यन्ति हतलक्षणः सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः तानद्य निहतेरामे वितथानि भवन्ति मे केशा सुक्ष्मा समानहीला भ्रुवौ च सुम्हते मम वृत्ते चारो मके जङ्घे दन्ताश्च विरला मम शङ्खे नेत्रे करो पादौ गुल्फावूरु समोचितौ अनुवृत्त नख स्निग्धा समासाङ्गुलयो मम स्तनौ च विरलो पीनौ मामकौ मग्नसूचुकौ मग्ना चोत्सेधनेनाभिः पाशो रस्कं च मेचितम् मम वर्णो मणिनिभौ मृदुन्यङ्गहाणि च पतिष्ठां द्वादशभि मामोचु शुभलक्षणम् समग्रयवमच्छिन्द्रम् पाणिपादं च वर्णवत् मन्दस्मितेत्येव च माम् आधिराज्येऽभिषेको मे ब्राह्मणे पतिना सह कृतान्त कुशलैरुक्तम् तत्सर्वम् वितथीकृतम् शोधयित्वा जनस्थानम् प्रवृत्तिमुपलभ्य च तीर्त्वा सागरमक्षोभ्यम् भ्रातरो गोष्पदे हतौ ननुवारुणमाग्नेयम् मैन्द्रम् वायव्यमेव च ्रह्म शिरश्चैव राघवो प्रत्यपद्यते अदृश्यमाने नरणे बायया वासभोपमौ मम नाथो अनाथाय निहतो रामलक्ष्मणो न दृष्टि दृष्टिः पथं प्राप्य राघवस्य ऋणे रिपुः जीवन् प्रति निवर्तेत यद्यपि स्यान्मनोजवहे न कालस्यातिभ्योऽपि कुता तश्च सुदुजय यत्र रामः स भ्रात्रा शेते युधि निपातितः न शोचामि तथा रामम् लक्ष्मणम् च महारथम् नात्मानम् जननीम् चापि यथा शश्रुम् तपस्विनीम् स तु चिन्तयते कदा द्रक्ष्यामि सीतां च लक्ष्मणं च स्वराघवम् परिदेवयमानां तां राक्षसी त्रीजसा ब्रुवी मा विषादं कृथा देवि तव जीवति कारणानि वक्ष्यामि महान्ति सदृशानि च यथेमो जीवतो देवी। भ्रातरौ रामलक्ष्मणौ दही कोपरीतानि ह पर्युत्सुखानि च भवन्ति युधियोनां मुखानि निहते पतौ इदं विमानं वैदेही पुष्पकं नाम नाम तिव्यं त्वां धारे नेदं यद्येतो गतजीवितौ हत वीर प्रधाना गतोत्साहः निरुद्यमः सेना भ्रमति संख्येषु हतकर्णे वौर्जले इयम् पुनः असम्भ्रान्ता निरुद्विघ्ना तपस्विनी सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितो। सा सुविस्तरब्धाः सुविस्तब्धा अनुमानैः सुखोदये अहतो पश्य काकुत्स्थौ याधेत द्रवीमिते अनृतं नोक्तपूर्वं मे न च मैथिली चारित्र सुखशीलत्वात् प्रविष्टासि मनो मम नयमौ शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरै तादृशं दर्शनं दृष्ट्वा मया जोदीरितं तव इदं तु सुमच्चित्रम् च्चरैः पश्य स्व मैथिली वितन्यौ नैव लक्ष्मीर्विमुञ्चति प्रायेण गतसत्त्वानाम् पुरुषाणाम् गतायुषाम् दृश्यमानेषु वक्त्रेषु परम् भवति वैकृतम् च शोकम् च दुःखम् च मोहम् च जनकात्मजे रामलक्ष्मणयोरर्थे नाद्य शक्यम् अजीवितुम् श्रुत्वा तु वचनम् तस्या सीतासूरसुतोपमः कृताञ्जलि वाचे माम् एवम् अस्त्रीति मैथिली तत्तु सन्निवर्त्य मनोजवम् दीनात्रीजतया सीता लङ्कामेव प्रवेशिता सतस्त्री यतया पुष्पकादवरोह्यता अशोकवनिकामेव राक्षसीभिः प्रवेशिता प्रविश्य सीता बहुवृक्षखण्डाम् तां राक्षसेन्द्रश्च विहारभूमिम् सम्प्रेक्ष्य सञ्चिन्त च राजपुत्रौ परं विषादं तमपा जगाम इत्याशि श्रीमद् रामायणे वाल्मीकि अधिकारि युद्धकाण्डे अष्ट सर्ग श्री सीतारामचन्द्रवणमस्तु